आरण्यकाण्डं सर्गं फोर् श्रीमहादेव उवाच मार्गे व्रजन् ददर्शाथ शैलशृङ्गमिव स्थितं वृद्धं जडायुषं रामः किमेतदिति विस्मितः धनुरानय सौमित्रे राक्षसोऽयं पुरस्थितः इत्याह लक्ष्मणम् रामो हनिष्यामृषिभक्षकम् तच्छ्रुत्वा रामवचनम् गृध्रराड्भयपीडितः वथार्होऽहं न नदे राम पितुस्तेऽहं प्रियः सखा जडायुर्नाम भद्रं ते गृध्रोऽहम् प्रियकृतव पञ्चवट्यामहं वत्स्ये तवैव प्रियकाम्यया मृगयायां कदाचित्तु प्रयाते लक्ष्मणेऽपि च सीताजनकन्यामे रक्षितव्या प्रयत्नतः श्रुत्वा तद्गृध्रवचनं रामः सस्नेहमब्रवीद साधु गृध्रमहारा च तथैव कुरुमे प्रियं प्रियम् अत्रैव मे समीपस्थो नादिदूरे वने वसन् इत्यामन्त्रितमालिङ्ग्य ययौ पञ्चवदीं प्रभुः लक्ष्मणेन सह भ्रात्रा सीतया रघुनन्दनः गत्वा ते गौतमीतीरं पञ्चवट्यां सुविस्तरं मन्दिरं कारयामास लक्ष्मणेन सुबुद्धिना तत्र तेऽन्यवसन् सर्वे गङ्गाया उत्तरे तडे कदम्बपनःसाम्रादिफलवृक्षसमाकुले विविक्ते जनसम्बाधवर्जिते नीरुजस्थले विनोदयन् जनकजां लक्ष्मणेन विपस्थिता अध्युवाससुखं रामो देवलोक इवापरः कन्दमूलफलादीनि लक्ष्मणोऽनुदिनं तयोः आनीयप्रददौ राम सेवा तत्परमानसः सैवा तत्परस धनुर्बाण सर्वतः स्नानं क्युदीन त्रयस्ते गौतमी जल्द उभोर्म्यसिता कुमार सलि निण प्रीतमानसः सेवते हरः प्रीत्या एवमाः सन् सुखं त्रयः एकदा लक्ष्मणो राममेकान्ते समुपस्थितं विनया वनदो भूत्वा पप्रच्छ परमेश्वरं भगवन् श्रोतुमिच्छामि मोक्षस्यैकान्तिकीं त्वत्थकमलपत्राक्ष संक्षेपाद्वक्तुमर्हसि ज्ञानं भक्ति भक्तिवैराग्यभृंहितम् आचक्ष्व आचक्ष्वमे रघुश्रेष्ठ वक्ता नान्योऽस्ति भूतले श्रीराम उवाच शृणु वक्ष्यामि ते वत्स गुह्याद्गुह्यतरं परम् यद्विज्ञाय नरो जह्यात् सद्यो वैकल्पकं भ्रमम् आदौ मायास्वरूपं ते वक्ष्यामि तदनन्तरं ज्ञानस्य साधनं पश्चात् ज्ञानविज्ञानसंयुतम् ज्ञेयं च परमात्मानं यज्ञात्वा मुच्यते भयाद् अनात्मनि शरीरादावात्मबुद्धिस्तु या भवेद सैव माया तयैवासौ संसारः परिकल्प्यते रूपे द्वे निश्चिते पूर्वे मायाया कुलनन्दन विक्षेपा वरणे तत्र प्रथमं कल्पये जगद् लिङ्गाद्यब्रह्मपर्यन्तम् स्तूल सूक्ष्म अपरं त्वकिलं विभेद अपरम तविलंपया कल्व पर कवले रज्जौ भुजंगव्रांदिया विचारे नास्थ किंचन शूय दृश्य यदिस्मदे वह न रई सदा अस देव तत्सर्वं यथा स्वप्नमनोरथौ देह एव हि संसारवृक्षमूलं दृढं स्मृतं तन्मूलपुत्रधारादिबन्ध किं तेऽन्यथात्मनः देहस्तु स्थूलभूतानां पञ्चतन्मात्रपञ्चकम् अहङ्कारश्च बुद्धिश्च इन्द्रियाणि तथा दश चिदाभासो मनश्चैव मूलप्रकृतिरेवच च यदक्षेत्रमिति ज्ञेयं देह इत्यभिधीयते दे। एतैर्विलक्षणो जीवः परमात्मा निरामयः तस्य जीवस्य विज्ञाने साधनान्यपि मे शृणु जीवश्च परमात्मा पर्यायो नात्र भेदधीः मानाभावस्तथा दम्भहिंसादिपरिवर्जनं पराक्षेपादिसहनं सर्वत्रावक्रता तथा मनोवाकाय सद्भक्त्या सद्गुरोः परिसेवनम् बाह्याभ्युद्धिस्थिता सत्क्रिया मनोवाकाय निरीखता, दंडस्ु निरीहता निरहंकारता जन्मजराद्यालोचन तथा पुत्रदार पुत्रदारधनाषु इष्टानिष्टागमे नित्यं चित्तस्य समदा तथा मयि सर्वात्मके रामह्यनन्यविषया मतिः जनसम्बाधरहितशुद्धदेशनिषेवणं प्राकृतैर्जनसङ्खैश्च ह्यरतिस्सर्वदा भवेत् आत्मज्ञाने सदोद्योगो वेदान्तार्थावलोकनम् उक्तैरेदैर्भवे ज्ञानं विपरीतैर्विपर्ययः बुद्धिप्राणमनोदेहाहङ्कृतिभ्यो विलक्षणः चिदात्माकं नित्यशुद्धो बुद्ध एवेदि निश्चयं येन ज्ञानेन संवित्ते तज्ज्ञानं निश्चितं च मे विज्ञानं च तदैवै आत्मा सर्वत्र पूर्णस्याच्चिदानन्दात्मको व्ययः बुद्ध्याद्युपाधिरहितः परिणामादिवर्जितः स्वप्रकाशेन देहादीन् भासयन्ननपावृतः एक एवाद्वितीयश्च सत्यज्ञानादिलक्षणः असङ्गस्वप्रभो द्रष्टा विज्ञानेनावगम्यते आचार्यशास्त्रोपदेशाद्यैक्यज्ञानं यदा भवेद् आत्मनोर्जीवपरयोर्मूलाविद्या तदैव हि लीयदे कार्यकरणैः सहैव परमात्मनि सावस्था मुक्तिरित्युक्ताह्युपचारोऽयमात्मनि इदं मोक्षस्वरूपं ते कथितं रघुनन्दनज्ञानविज्ञानवैराग्यसहितं मे परात्मनः किं त्वे तद्दुर्लभम् मन्ये मद्भक्तिविमुखात्मनाम् चक्षुष्मदामपि तथा रात्रौ सम्यग् न दृश्यते पदम् दीपसमेतानां दृश्यते सम्यगेव एवं मद्भक्तियुक्तानामात्मा सम्यक् प्रकाशते मद्भक्ते कारणं किञ्चिद्वक्ष्यामि शृणु तत्त्वतः मद्भक्तसङ्गोमत्सेवा मद्भक्तानां निरन्तरम् एकादश्युपवासादि मम पर्वानुमोदनम् मत मतक्रवणे पाठे मत पूजा व्याख्यादि मतूज परनिष्ठा चम नाकर्तन सततयुक्ता भक्तिरव्यचारिणी मयि संयं तथ किशिष्य अदो मद्भक्तियुक्तस्य ज्ञानं विज्ञानमेव च वैराग्यं च भवेच्छीघ्रं ततो मुक्तिमवाप्नुयात् कथितं सर्वमे दत्ते तव प्रश्नानुसारतः अस्मिन् मनःसमाधाय यस्तिष्ठेत् स तु मुक्तिभाक् न वक्तव्यमिदं यत्नान्मद्भक्तिविमुखाय हि मद्भक्ताय प्रदातव्यमाहूयापि प्रयत्नतः य इदं तु पठेन्नित्यं श्रद्धाभक्तिसमन्वितः अज्ञानपटलध्वान्दं विधूय परिमुच्यते भक्तानां मम योगिनाम् सुविमलस्वान्दादिशान्दात्मनां मत्सेवाभिरतात्मनां विमलज्ञानात्मनां सर्वदा सङ्गं ह्यः कुरुते सदोऽद्यतमध्ये तत्सेवनानन्यधीः मोक्षस्तस्य भवे नान्यथा यीमद्यात्मणे उमहर संवाद अर्य कांडे चतुसर्ग ओ